पुनः सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अद्यतनविषयः अस्ति साधनायाः रहस्य रहस्य इति तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतं पतिं पतीनां परमं परस्तात् विदाम देवं भुवनेशं पीड्यं म् ईश्वराणां परमं महेश्वरम् अत्र ईश् इति धातुः वर्तते ईश् धातोः अर्थः अस्ति नियन्त्रणं शासनम् इति अस्मिन् जगति यत्किमपि वयं कर्म कुर्मः तस्य कश्चन नियन्त्रकः भवति इत्युक्ते गृहे वा भवतु बहिः वा भवतु बहिः यदा वयं कार्यं कुर्मः तदानीं तत्र कश्चन नियन्त्रकः तु भवति अपि च देशे अपि कश्चन नियन्त्रकः अस्ति अस्माकं प्रदेशे अपि कश्चन नियन्त्रकः अस्ति इति एवं रीत्या यत्किमपि कर्म कुर्मः तस्य एकः विशेषः नियन्त्रकः भवति यदि अत्र दिल्लीनगरं वर्तते तर्हि दिल्लीनगरस्य कश्चन नियन्त्रकः तं वयं दिल्लीश्वरः इति वदामः अथवा जगदीश्वरः इति इत्युक्ते तस्य नियन्त्रकः इति इत्यस्मिन् अर्थे एवं रीत्या अस्मिन् जगति किमपि कर्म कुर्मः चेत् कर्म कुर्मः कुर्मः चेत् तत्र कश्चन नियन्त्रकः भवति तर्हि वयं किं कुर्मः अस्माकं किमपि कार्यं करणीयं चेत् तस्य सहायता आवश्यकता चेत् वयं किं कुर्मः तस्य तादृशनियन्त्रकस्य तृप्त्यर्थं वयं सलां हुजुरी कुर्मः खलु संशागिरी कुर्मः खलु लोके एतत् एतत् किमपि अस्माकं कार्यं करणीयं तर्हि तत्र यः नियन्त्रकः अस्ति तस्य पार्श्वे गत्वा वयं सः अस्ति वा अस्ति वा इति तदर्थं वयं बहुकिमपि कुर्मः इति इति एवं रीत्या जगति बहवः ईश्वराः सन्ति परन्तु तेषां सर्वेषाम् ईश्वराणाम् एकः अस्ति महेश्वरः सः एव परममीश्वरः सो महान् जगति ये ईश्वराः सन्ति तेषामपेक्षया ये यः महेश्वरः अस्ति सः बहु श्रेष्ठः अस्ति यः दिल्लीश्वरः अस्ति इत्युक्ते यत्किमपि कर्म कुर्मः तस्य यः स्वामी अस्ति तस्य पार्श्वे गत्वा वयं तस्य तृप्त्यर्थं बहु कुर्मः परन्तु तादृशदिल्लीश्वरः अपि महेश्वरं प्रति गत्वा पृच्छति मम कृते एतद् ददातु तद् ददातु इति इत्युक्ते तद्दृष्ट्वा वयं ज्ञातुं शक्नुमः तस्यापि कश्चन स्वामी अस्ति सर्वेषाम् ईश्वराणां कश्चन स्वामी अस्ति इति अतः यः बुद्धिमान् व्यक्तिः अस्ति सः अथवा यः बुद्धिमत् व्यक्तिः अस्ति सः किं करोति इति चेत् एतादृश यः ये दिल्लीश्वराः सन्ति तेषां पार्श्वे न गच्छति परन्तु यः महेश्वरः अस्ति तस्य पार्श्वे एव गच्छति अन्येषां तृप्त्यर्थं सः प्रयासं न करोति परन्तु यः महादेवः अस्ति महेश्वरः अस्ति तस्य तृप्त्यर्थं तस्य सन्तोषार्थम् एव बुद्धिमान् पुरुषः प्रयासं करोति तम् ईश्वराणां परमं महेश्वरम् यः महेश्वरः अस्ति सः महान् ईश्वरः सः कुत्रचित् आकाशे नास्ति सामान्यतया जनाः परमात्मा इति चेत् उपरि आकाशे पश्यन्ति परन्तु परमात्मा आकाशे आकाशे अस्ति इति नास्ति परमात्मा सर्वत्र वर्तते आकाशे अपि अस्ति सर्वत्र अस्ति त सः एव सामग्री इति तर्हि प्रथमं तु तम् ईश्वराणां परमं महे महेश्वर महेश्वरः अस्ति द्वितीयमस्ति तं देवतानां परमं च देवतम् अस्मिन् जगति यत्किमपि वस्तु अस्ति तस्मिन् वस्तूनि कश्चन तरङ्गः अस्ति कश्चन स्पन् किञ्चित् स्पन्दनं वर्तते तस्य वस्तुनः निर्माणार्थं स्पन्दनं वर्तते तादृशस्पन्दनं वयं देवः इति वयं वदामः देवः इति वयं वदामः तर्हि अस्मिन् जगति यानि वस्तूनि सन्ति तानि सर्वाणि अपि देवाः सन्ति तादृशदेवानामपि परमं परमं देवः कः इति चेत् सः महादेवः परमः देवः महादेवः एतेषां सर्वेषां देवतानां परमं देवः महादेवः देवतानां परमं च अनन्तरं सः पतिः अस्मिन् जगति वयं पश्यामः चेत् कश्चन स्वामी भवति तस्य गृहस्य स्वामी भवति तस्य धनस्य स्वामी भवति कश्चन देशस्य स्वामी भवति कश्चन प्रदेशस्य अथवा ग्रामस्य इत्येवं रीत्या अस्मिन् जगति ये ये स्वामिनः सन्ति तेषां स्वामित्वं यत्पर्यन्तं भवति इति चेत् तत्र सीमा वर्तते निरन्तरं नास्ति कश्चन स्वामी भवति दशवर्षपर्यन्तं कश्चन स्वामी भवति विंशतिवर्षपर्यन्तं कश्चन पञ्चविंशतिवर्षवर्षपर्यन्तं कश्चन शतवर्षपर्यन्तम् इति तत्र सर्वत्र अत्र यत्किमपि वस्तु भवत, भवतु तस्य यः स्वामी अस्ति तस्य स्वामित्वं निरन्तरतया भवति इति नास्ति तस्य सीमा वर्तते इदानीं लोके कश्चन पुरुषः अस्ति सः वदति इदम् इदं मम गृहम् इति एवं रीत्या वदति अथवा इदं मम धनम् इति एवं रीत्या वदति अथवा मम वस्तु इति वदति परन्तु तादृशपुरुषः यह एवं वदति श्वः सः भवति वा न जाने सः सर्वदा लोके भवति इति नास्ति कदाचित् तस्य स्वामित्वं गच्छति परन्तु तद्वस्तु लोके भवति यद् गृहं तेन उक्तं मम गृहम् इति इदानीं तु सः लोके नास्ति इदानीं तत्र स्वामित्वं नास्ति इदानीम् अन्य कोपि स्वामी, स्वामी स्वामी स्वामी जातः तर्हि अस्माकं लोके तु स्वामित्वस्य सीमा वर्तते कालसीमा वर्तते कियत्कालपर्यन्तं वयं स्वामित्वम् अस्माकं स्वामित्वं भवति इत्यत्र सीमा वर्तते परन्तु परमात्मा यः वर्तते तस्य स्वामित्वं तु सर्वदा वर्तते सः तु स्वामी अस्ति सः पतिः अस्ति अधिपतिः अस्ति पतीनां पतिः अस्ति सः सः सर्वदा निरन्तरतया सः सर्वदा भवति अन्ये ये स्वामिनः सन्ति ते आगच्छन्ति गच्छन्ति परन्तु परमात्मा पतीनां पतिः परमं परस्तात् स परमम् इत्युक्ते परः ते परह परः परह अपि परः इत्युक्ते परस् परः इत्यस्य पर काष्ठा विदामदेवं भुवनेशम् ईड्यम् सः यः एकमात्रः परमः देवः महादेवः सः एव भुवनस्य इड्यं नाम पूजनीयम् पूजनीयः अस्ति सः एव पूजनीयः अस्ति इदानीं तत्र इड्यम् इति शब्दः वैदिकभाषायां वर्तते इड्यम् इडियं मने इडियं नाम पूजनीयः इत्यर्थः इड्यं नाम पूजनीयः इत्यर्थः तत्र लौकिकभाषायां तु इड्यम् इति शब्दस्य व्यवहारः नास्ति इड्यं पूजनीयः अस्ति भुवनत्रयस्य कः पूजनीयः अस्ति चेत् वर्णः टवर्गस्य तृतीयवर्णः श्वः एव स्वामी वर्तते भुवनत्रयस्य तादृशमहादेवं वयं प्रार्थयामः इत्यर्थः इति अस्ति तादृ तादृशमहादेवं वयं चिन्तयामः मरणं कुर्मः इदानीम् अत्र अन्यः विषयः अस्ति अस्माकं तत्र लोके तु अवस्थात्रयं वर्तते जाग्रदवस्था स्वप्नावस्था सुषुप्ति अवस्था इति वस्तुतः अत्र तद् अवस्थात्रयं वयं भुवनत्रयम् इति वदामः वस्तुतः अवस्था चतुष्टयं वर्तते चतुर्थावस्था अस्ति तुरीयावस्था जाग्रदवस्था स्वप्नावस्था सुषुप्त्यवस्था तुरीयावस्था एतदेव वयं चतुर्भुवनम् इति वयं वदामः अस्माकम् अनुभवः अस्ति जाग्रतावस्थायां स्वप्नवस्थायां सुशुक्त्यवस्थायाम् अस्माकम् अनुभवः तुरीयावस्थायां नास्ति तुरीयावस्था तु अस्माकं प्रायणतुर्यावस्थायाः अनुभवः नास्ति तुरीयावस्था तु तादृश अवस्था यत्र परमात्मा स्वरूपतया भवति त्रिभुवनं त्रिभुवनम् इति यद् वयं वदामः तस्य अस्माकं ज्ञानमस्ति अनुभवः अस्ति तुरीयावस्था इति यद्वदामः यत्र परमात्मा स्वरूपतया भवति तादृशस्य अस्माकं तदेव तत्र चतुर्थभुवनम् इति वदामः तस्य अनुभवः साधनायामेव भवति तर्हि इदानीम् एकैकम् अवस्थां वयं पश्यामः जागरतावस्था जागरतावस्थायां तत्र मनसः बलहीनत्वं वर्तते सामान्यतया मनः किं करोति इति चेत् इन्द्रियेण मनसः कार्यं भवति इन् मनः इन्द्रियेण संलग्नं भवति इन्द्रिय इन्द्रियम् अर्थेन संलग्नं भवति तदानीम् अस्माकं प्रत्यक्षं भवति तर्हि इन्द्रियस्य सामर्थ्ये सीमा वर्तते इन्द्रियं क किं वस्तु गृहीतुं शक्नोति इति चेत् यद्वस्तु समीपे वर्तते अस्माकं पुरतः वर्तते चेत् तद्वस्तु तस, तस्य वस्तुनः प्रत्यक्षं भवति परन्तु यद्वस्तु अतिदूरे वर्तते यद्वस्तु अतिसूक्ष्मं वर्तते तादृशवस्तुनः ग्रहणसामर्थ्यं नास्ति अस्माकम् इन्द्रियेषु खलु इति एतद् वयं जानीमः तर्हि इदानीम् अत्र वयं स्मः अन्यत्र कुत्रचित् तत्र गायति तर्हि तद् वयं स्पष्टतया न श्रोतुं शक्नुमः कदाचित् एवमपि भवितुम् अर्हति यद् तत्र तरङ्गद्वारा ध्वनिः आयाति अत्र किमपि अत्र किमपि श्रूयते ध्वनिः श्रूयते परन्तु स्पष्टतया न ज्ञायते किम् अस्ति इति तेन वयम् अवगन्तुं शक्नुमः इन्द्रिये सामर्थ्यं नास्ति यद् दूरे अस्ति तस्य ग्रहणसामर्थ्यं नास्ति इन्द्रिये इन्द्रियस्य देशकालपात्राधारेण तरही तर्हि शब्दस्पर्शरूपरसगन्ध इति एतेषां तन्मात्राणां ग्रहणम् इन्द्रियेण भवति परंतु तत्र अत्यन्तं सीमा वर्तते बहुदूरे वर्तते अथवा बहुसूक्ष्मं वर्तते चेत् ग्रहीतुं न शक्नुमः अतः जाग्रतावस्थायाम् अस्माकम् एतादृशप्रसङ्गः अस्ति यत्र इन्द्रियेण सर्वं ग्रहितुं न शक्यते यत् समीपे अस्ति तस्य ग्रहणं शक्यते अपि च इन्द्रियमपि सम्यक् भवेत् तदानीं ग्रहणसामर्थ्यं वर्तते तदानीं मनः इन्द्रियेण लग्नं भवति इति जाग्रतावस्था स्वप्नावस्थायां किं भवति इति चेत् तत्र देशकालपात्राधारेण या सीमा आसीत् जाग्रतावस्थायां तादृशसीमायाः किञ्चित् न्यूनता भवति इत्युक्ते जाग्रतावस्थायाम् अत्र वयं स्मः इदानीं भारतदेशे स्मः भारतदेशात् झटिति अमेरिकादेशपर्यन्तं वयं गन्तुं न शक्नुमः जाग्रतावस्थायां परन्तु स्वप्नावस्थायां तु झटिति वयम् अमेरिकादेशे गन्तुं शक्नुमः अथवा देशं प्रति गन्तुं शक्नुमः अथवा अन्यत्र अपि गन्तुं शक्नुमः जाग्रतावस्थायां या सीमा आसीत् तादृशसीमा स्वप्न अवस्थायां न दृश्यते स्वप्नावस्थायां कोपि अस्माकं शत्रुः अन्यत्र कुत्रचित् अस्ति चेत् तत्र गत्वा तत्र तं ताडयित्वा अपि आगन्तुं शक्नुमः स्वप्नावस्थायां तर्हि इन्द्रियस्य इन्द्रियाणां या सीमा आसीत् अथवा यत् बन्धनम् आसीत् देशकालपात्राधारेण तस्य सुषु, तत्र किञ्चित् न्यूनता भवति बन्धनस्य न्यूनता भवति स्वप्नावस्थायां तदनन्तरं सुषुप्ति मनसः बलहीनता कुत्र इति चेत् सुषु इत्युक्ते तत्र जडसमाधिः इति वयं वक्तुं शक्नुमः तर्हि सुषुप्तौ देशकालपात्राधारेण बन्धनं नास्ति जडसमाधिः इति अवस्थायाम् अन्धकारः भवति कुचि किमपि वस्तुतः किमपि न न्यायते। एतदेव अत्र तृतीयः स्तरः सुषुप्ति अवस्था तत्र जडसमाधिः अन्धकारः इति वयं वदामः तर्हि इदानीं तत्र यदा वयं साधनां कुर्मः तदानीं किं भवति इति चेत् यदा तीव्ररीत्या साधनां कुर्मः तदानीं जाग्रतावस्थातः वयं स्वप्नावस्थायां स्वप्नावस्था इव एका अवस्था अस्ति तस्याम् अवस्थायां वयं गच्छामः तदनन्तरम् इतोपि तीव्ररीत्या साधनां कुर्मः चेत् तदानीं स्वप्नावस्थातः सुर्यावस्थायां वयं गच्छामः यदा सुषुप्तिः भवति तदानीम् अन्धकारः भवति इति उक्तम् अन्धकारः यः अस्ति तस्य साध साधकस्य जीवने माया इति वयं वदामः अन्धकारः माया अथवा अविद्या तर्हि सुषुप्ति अवस्थायाम् अस्माकम् अस्तित्वमस्ति तथापि क्रिया न भवति वयं क्रियाशीलाः न भवामः केवलं जाग्रतावस्थायां स्वप्नवस्थायामेव वयं क्रियाशीलाः भवामः तर्हि अस्माकं वस्तुतः ग्रहणसामर्थ्यं जाग्रतवस्थायाम् अस्ति स्वप्नवस्थायाम् अस्ति क्रियाशीलत्वं सुषुप्त्यवस्थायां तु अत्र लोकः अन्धकारे विलीनः अस्ति लोकः अस्ति परन्तु अन्धकारेण आवृतः अन्धेन तमसावृता अन्धकारेण अन्धकारे लीनः अस्ति लोकः कथम् अन्धकारे लीनः अस्ति इति चेत् इत अस्माकं सविदे बहुधनं वर्तते बहुधनं वर्तते परन्तु वयं न जानीमः इति चिन्तयतु अस्माकं सविधे बहुधनम् अस्माकं प्रकोष्ठे बहु वर्तते परन्तु सर्वत्र अन्धकारः वर्तते अतः न जानीमः धनमस्ति इति अतः वयं चिन्तयामः अहं निर्धनी मम पार्श्वे धनं नास्ति खादनार्थं किमपि नास्ति इति एवं रीत्या वयं चिन्तयामः अन्धकारवशात् परन्तु यदा प्रकाशः आयाति तदानीं वयं प्रकोष्ठे पश्यामः चेत् तत्र वर्तते तर्हि एवं सुषुप्त्यवस्थायां लोकः वर्तते परन्तु अन्देन अन्देन तमसावृत्ता इत्युक्ते अन्धकारेण आवृत्त आवृत्तः अस्ति लोकः सुशुक्त्यवस्थायाम् इदानीं साधनाकाले अस्माकम् अनुभवः कथमस्ति इति चेत् मनुष्यः साधना मनुष्यः यदा साधनां करोति तर्हि किं भवति कः अनुभवः भवति अस्माकं स्वाभाविक अवस्था इति चेत् मनः सर्वदा इन्द्रियैः वशीभूतं वर्तते इन्द्रिये इन्द्रियाणां द्वारा मनः बाधितं अस्ति बाधितमस्ति देशकालपात्राधारेण बाधितम् अस्ति परन्तु यदा साधनां कुर्मः तर्हि इन्द्रियाणाम् उपरि यद्बन्धनम् अस्ति तादृशबन्धनस्य शिथिलता भवति तादृशबन्धनस्य न्यूनता भवति साधनाद्वारा तर्हि इन्द्रियाणां निग्रहः कथं शक्यते इति चेत् साधनाद्वारा एव शक्यते सामान्यतया मनः वशीभूतं वर्तते इन्द्रियैः वशीभूतं वर्तते मनः यदा साधनां कुर्मः तदानीम् इन्द्रियाणां बन्धनं न्यूनं भवति इन्द्रियाणां मनः मनः इन्द्रियाणां बन्धनं यदा न्यूनं भवति तदानीं मनः अपि किञ्चित् मुक्तं भवति देशकालपात्राधारेण यत् बन्धनमस्ति तादृशबन्धनस्य न्यूनता भवति साधनाद्वारा तर्हि यदा इन्द्रियाणां बन्धनस्य न्यूनता भवति तदानीं स्वप्नावस्था इव अवस्थितिः भवति तत्पश्चात् यदा साधनायां कश्चन पुरुषः प्रतिष्ठितः वर्तते तदानीम् एवं भवति प्रथमतया बन्धनस्य न्यूनता भवति तदनन्तरं किं भवति देशकालपात्राधारेण यद्बन्धनम् आसीत् तत् सम्पूर्णतया अपगच्छति तदनन्तरं तर्हि तत्र साधनायां पुरुषः सम्पूर्णरूपेण बन्धनात् मुक्तः वर्तते देशकालपात्र पात्र देशकालपात्रं नास्ति तर्हि तदानीं सम्पूर्णतया सुर्यावस्थायां सः गच्छति इति एवं रीत्या क्रमः अस्ति जाग्रतावस्था यत्र इन्द्रिया इन्द्रियाणां वसि वशी, वशीभूतं भवति म मनः अनन्तरं तत्र साधनाद तीव्रतया साधनां कुर्मः चेत् तत्र इन्द्रियाणां बन्धनं न्यूनं भवति तद् स्वप्नावस्था इव भवति तदनन्तरम् इतोपि तीव्ररीत्या साधनां कुर्मः चेत् तदानीम् इन्द्रियाणां सम्पूर्णतया बन्धनं नष्टं भवति तदानीं तुर्यावस्थायां साधकः भवति तर्हि साधनायाः द्वारा कश्चन मनुष्यः स्वस्य जीवने एवम् अनुभवं प्राप्नोति जाग्रतावस्था तर्हि जाग्रतावस्थायां देशकालपात्राधारिणबन्धनं तदनन्तरं शनैः शनैः अत्र स्वप्नावस्था यत्र बन्धनस्य न्यूनीकरणं तदनन्तरं तुरी यत्र बन्धनात् मुक्तः भवति अत्र अन्यः अपि एकः विषयः अस्ति मनुष्याणाम् इन्द्रियाणां मनुष्यस्य यानि इन्द्रियाणि सन्ति तेषां सामर्थ्यं सीमितं वर्तते इति वयं जानीमः मनसः सामर्थ्यं वस्तुतः इन्द्रियाणां सामर्थ्यात् अधिकं वर्तते मनसि अपारः अपारासक्तिः वर्तते किन्तु किं भवति इति चेत् मनः सर्वदा इन्द्रियैः लग्नं भवति इति कारणात् इन्द्रियाणां सामर्थ्ये इन्द्रियाणां यत् यादृशसामर्थ्यमस्ति तादृशसामर्थ्यं मनसि अपि आगच्छति यतोहि मनः इन्द्रियैः लग्नं वर्तते वस्तुतः मनसि अपाराशक्ति वर्तते परन्तु सर्वदा मनः यदा इन्द्रियैः सह लग्नं भवति तदानीम् इन्द्रियाणां यद् या सीमा वर्तते सामर्थ्ये तादृशसीमा मनसि अपि आयाति वस्तुतः मनसि अपाराशक्तिः वर् वर्तते अतः एव जाग्रत् अवस्थायां मानसिकरीत्या आन्तरिकशक्ति या वर्तते सा शक्ति अस्ति तथापि जागृतावस्थायां सर्वदा वयम् इन्द्रियैः एव कार्यं कुर्मः मनः इन्द्रियेण लग्नं वर्तते इति कृत्वा तदानीं तत्र आन्तरिकशक्तिः जागरिता न भवति यदा मनुष्यः जागरितः भवति तदानीं स्वाभव स्वाभाविकावस्थायां भवति तत्र यदा सः बाह्यजगता सह सह सम्पर्कं करोति तर्हि इन्द्रियैः करोति तदानीं तत्र मानसिकशक्तिः न भवति परन्तु यदा सः यदा सः साधनां करोति तदानीं किं भवति इति चेत् अद्भुता जागरिता भवति जागृतावस्थायाम् अत्र जगति यत्किमपि अस्ति सर्वं वयं पश्यामः इति नास्ति तत्र किमपि वयं द्रष्टुं शक्नुमः किमपि द्रष्टुं न शक्नुमः अस्माकं पुरतः अस्ति परन्तु सूक्ष्मः अस्ति चेत् द्रष्टुं न शक्नुमः अस्माकं पुरतः बहु किमपि अस्ति सर्वं वयं पश्यामः इति नास्ति तत्र कीटाः सन्ति अणवः सन्ति तत्सर्वं वयं न पश्यामः कदाचित् यद् बृहत् वस्तु अस्ति तदपि कदाचित् वयं द्रष्टुं न शक्नुमः यतोहि अस्माकम् इन्द्रिये चक्षुषी सामर्थ्यं नास्ति इति कृत्वा तदानीम् उपनेत्रस्य आवश्यकता भवति तदानीमेव द्रष्टुं शक्नुमः एवं रीत्या अस्माकं श्रवणसामर्थ्ये अपि सीमा वर्तते शक्तिः नास्ति सर्वं वयं श्रोतुं शक्नुमः इति नास्ति mm -hmm. किमपि तत्र सूक्ष्मः शब्दः वर्तते चेत् वयं श्रोतुं न शक्नुमः एवं मानसिकवस्थायामपि तत्र किमपि वयं द्रष्टुं शक्नुमः किमपि वयं श्रोतुं शक्नुमः किमपि वयम् अवगन्तुं शक्नुमः अत्र किमस्ति इति चेत् सामान्यतया अधिकाधिकं मनः इन्द्रियाणां वशे भवति यदा मनः स्वतन्त्रतया किमपि कार्यं करोति इन्द्रियैः यदा लग्नं न भवति इन्द्रियाणां सहायं न स्वीकरोति तदानीं तस्मिन् मनसि इतोपि अधिका वर्तते परन्तु सामान्यतया किं भवति इति चेत् मनः इन्द्रियैः लग्नं भवति इन्द्रियाणां सहायं स्वीकरोति स्वीकरोति स्वीकरोति स्वीकरोति एवं कृत्वा कृत्वा तत्र मानसिक अवस्थायामपि न्यूनता आयाति सर्वं वयं द्रष्टुं न सर्वं वयं श्रोतुं न सर्वं वयम् अवगन्तुं न एतत् किमर्थम् इति चेत् इन्द्रियाणां वशे भवति इति कारणात् अतः अस्माकं नेत्रे उद्घाटिते चेदपि कदाचित् वयं द्रष्टुं न शक्नुमः कदाचित् सीमा वर्तते किञ्चित् दूरपर्यन्तमेव वयं द्रष्टुं शक्नुमः ततः अग्रे द्रष्टुं न यतो यतोहि इन् मनसा वयं ततः अग्रे अपि द्रष्टुं शक्नुमः परन्तु इन्द्रियैः यदा बद्धं वर्तते तदानीं कियत् वयं द्रष्टुं शक्नुमः तर्हि साधनायां किं भवति इति चेत् इन्द्रियं विहाय इन्द्रियं त्यक्त्वा अपि अधिकं द्रष्टुं शक्नुमः अधिकं सोतुं शक्नुमः अधिकं ज्ञातुं शक्नुमः एतत्तु आत्मव्याप्तिव्याप्तेः द्वारा सम्भवति अस्मिन् लोके यद्वयं द्रष्टुं शक्नुमः इत्युक्ते तत् कतिचन वस्तूनि सन्ति ता तानि वयं द्रष्टुं शक्नुमः इतोपि कतिचन सन्ति तानि वयं द्रष्टुं न शक्नुमः यतोहि इन्द्रिये सामर्थ्यं नास्ति अतः अस्माकं मनः अपि ता तानि वस्तूनि द्रष्टुं न मनः अपि न द्रष्टुं न शक्नोति इत्युक्ते सामान्यतया इन्द्रिय इन्द्रियाणां तत्र इन्द्रियाणां ग्रहणसामर्थ्यद्वारा चित्तं वस्तुनः आकारं स्वीकरोति अतः तस्य प्रत्यक्षं भवति साधनाद्वारा किं भवति इति चेत् मनः यावत् इन्द्रियाणाम् आश्रये भवति इन्द्रिया इन्द्रियाणि आधारीकृत्य भवति मनः तादृशनिर्भरशीलता इति या अस्ति तां त्यजति मनः साधनाद्वारा मनः इन्द्रियसम्पर्कात् मुक्तं भवति तेन कारणेन किं भवति इति चेत् मनः इतोपि अधिकं द्रष्टुं शक्नोति इतोपि अधिकं श्रोतुं शक्नोति इतोपि अधिकं ज्ञातुं शक्नोति सर्वाणि कार्याणि कर्तुं शक्नोति सर्वाणि कार्याणि कर्तुं सामर्थ्यमायाति ये य अत्र एतदेव अत्र वास्तविकः विषयः एतदेव वास्तविकविषयः इत्युक्ते तद् तदर्थं वयं द्रष्टुं शक्नुमः ये साधकाः सन्ति ये बहुकालात् साधनं कुर्वन् कुर्वन्तः सन्ति तान् वयं पश्यामः चेत् वयम् अवगन्तुं शक्नुमः ते प्रातःकालात् आरभ्य रात्रिपर्यन्तं बहुकिमपि कुर्वन्ति अपि च तेषां दृष्टिः सूक्ष्मा वर्तते तेषाम् अवगमनं यादृशं वर्तते तादृशम् अवगमनं सामान्यमनुष्याणां न भवति ते सूक्ष्मतया कथं चिन्तयितुं शक्नुवन्ति तादृशं वयं कर्तुं शक्नुमः ते यान शब्दान् श्रोतुं शक्नुवन्ति ते यान् विषयान् द्रष्टुं शक्नुवन्ति तेषाम् अव अवगम अवगमनं कियद्भवति इति तत्तु बहु अधिका भवति अन्येषाम् अपेक्षया तत् कथम् इति चेत् साधनाद्वारा मनः इन्द्रियाणां वशे न भवति निग्रह भवति मनः बन्धनात् मुक्तं भवति बन्धनात् मुक्तं भवति एतादृश अनुभवः केवलं साधनाद्वारा एव भवति साधनाद्वारा अद्भुता शक्तिः आयाति मनसि अतः एव अस्माभिः तीव्ररीत्या साधना करणीया यतोहि साधना अस्माकं जीवनस्य लक्ष्यं वर्तते साधनाद्वारा एव इन्द्रियाणाम् उपरि या निर्भरशीलता वर्तते तद् अपगच्छति मनः मनसि अपारा शक्ति अद्भुता शक्ति जागरिता भवति अस्मासु एतादृशशक्तिः वर्तते तादृशशक्तिः सुषुप्त अवस्थायाम् अस्ति तादृशशक् तां शक्तिं अस्माभिः जागरणीया सा शक्तिः अस्माभिः जागरणीया सा शक्तिः कथं जागरिता भवति इति चेत् साधनाद्वारा अतः एव तीव्ररीत्या अस्माभिः चिन्तनीयं मम जीवनस्य लक्ष्यम् एतदेव अस्ति तदर्थं मया प्रयासः करणीयः तदर्थं प्रयासः एव न कृतः चेत् जीवनमेव व्यर्थं अस्माकं मनसि एतादृशसामर्थ्यं वर्तते इति इदानीं जानीमः परन्तु ज्ञात्वा किमपि न कुर्मः इन्द्रियात् मुक्तिः प्राप्तुं प्रयासं न कुर्महा चेत् जीवनमेव व्यर्थं भवति अतः अत्र साधनायाः रहस्यः कः इति अस्मिन् इदानीं मया उक्तम् अत्र किमपि वक्तव्यं चेत् वदन्तु कृपया भवति यत् वयं वदामः तत् भवति सा न अत्रेः विषयः नास्ति अस्तु सिद्धिः इति तु तद्वयं न स्वीकुर्मः एव सिद्धिः इति अलौकिकशक्तिः अलौकिकशक्तिः तद्वयं न स्वीकुर्मः अत्र सिद्धेः विषयः नास्ति इत्युक्ते मनसि या यादृशसामर्थ्यम् <च्छा> अस्ति सामान्यतया मनसि यादृशसामर्थ्यमस्ति तस्य प्रयोगः न भवति यतोहि मनः सर्वदा इन्द्रियैः लग्नं भवति परन्तु यदा इन्द्रिय इन्द्रियाणां वन्दनं शिथिलं भवति तदानीं मनसि तादृशसामर्थ्यम् आयाति ओके okay. तर्हि इदानीम् अस्माकं यद्भवती उक्तवती खलु सुषुप्त अवस्था तुर्यावस्था तत्र भिन्नता किं सुषुप्तावस्थायामपि इन्द्रियाः शिथिलाः भवन्ति खलु तुर्यावस्थायामपि तेषाम् अवगमनं नास्ति तर्हि सुषुप्त हा सुषुप्त अवस्था अन्धकारः अस्ति सुषुप्त अवस्था अन्धकारः अस्ति तत्र इन्द्रियाणां कार्यं न परन्तु तुर्यावस्थायां परमात्मा स्वरूप स्वरूपतया इति इदानीं पश्यतु कश्चन पुरुषः अस्ति यः मांसम् एतत् सर्वं खादति तत् मधु मधुपानं करोति सर्वं करोति सः अपि शयनं करोति सुषुप्त अवस् सुषुप्त्यवस्थां सुषुप्त्यवस्थां प्राप्नोति तर्हि तद् तुर्यावस्था इति न वक्तुं शक्नुमः खलु सर्वेषां शयनं भवति वयं सर्वे अपि सुषुप्तिं प्राप्नुमः तर्हि तत् तादृश अवस्था सुषुप्ति अवस्था तत्तु जडसमाधिः इति वयं वदामः वास्तविकसमाधिः नास्ति जडसमाधिः केवलम् अन्धकारः वर्तते तुरी अवस्था इति तादृश अवस्था यत्र परमात्मा स्वरूपतया भवति तादृश अवस्था इतोपि उच्छा अवस्था अस्ति तत्र केवलं जडसमाधिः इति नास्ति तत्तु वास्तविकसमाधिः यत्र तत्र मनः मनसातीतः भवति तत्र सुषुप्ति मनः तत्र मनः अपि स्वप्तं सुप्तं भवति मनः अपि सुप्तं भवति इन्द्रियाणि अपि सुप्तानि भवन्ति तत्र क्रिया न भवति अन्धकारः एव भवति परन्तु तुरीयावस्था इति भिन्ना अवस्था यत्र परमात्मास्वरूपतया भवति अतः एव अस्माकं चत्वारः चत्वा अवस्थाः सन्ति जाग्रतावस्था स्वप्नावस्था सुशुप्ति अवस्था तुरी अवस्था इति सुषुप्तिपर्यन्तं सर्वेषामपि अनुभवं भवति परन्तु सूर्यवस्था तु केवलं साधनाद्वारा एवं वा हा सत्यं सुषुप्ति अवस्था सर्वेषाम् अस्माकं सर्वेषां भवति इत्युक्ते तत्र साधकः वा असाधकः वा सर्वेषां तु सुषुप्तिः भवति एव खलु डीप् स्लीप् तु सर्वेषां भवति अतः तत्तु उच्चावस्था नास्ति तत्र अन्धकारः अस्ति मनः मनः नास्ति इन्द्रियाणि कार्यं न करो कुर्वन्ति क्रिया नास्ति एतत् सर्वम् अस्ति परन्तु उच्चावस्था नास्ति तुर्यावस्था इति तु उच्च अवस्था यत्र परमात्मा स्वरूपतया भवति तत्र अस्माकं ऐक्यं भवति परमात्मना सह ऐक्यं भवति तुर्यावस्थायां तत्र देशकालपात्रं किमपि नास्ति इन्द्रियाणां वन्दनमपि नास्ति किमपि नास्ति अस्तु इत्युक्ते तत्र तुर्यावस्था सुषुप्त्यवस्थाम् अतिरिच्य गच्छामः अतिरिच्य गच्छामः इत्युक्ते सुसुप्त्यवस्था तुर्यावस्था समानस्तरे अस्ति इति नास्ति सुषुप्त्यवस्थामपि अतिरिच्य तुर्यावस्था इतोपि उच्चावस्था Okay. तर्हि इदानीं प्रश्नः सन्ति चेत् वयम् अग्रे गन्तुं शक्नुमः तर्हि अस्माकम् इदानीं विषयः अस्ति साधना इत्येव विषयः तस्य आवश्यकता इति विषयः अस्ति तर्हि इदानीम् अत्र किमुक्तमिति चेत् अस्माकं मनुष्यजीवनस्य लक्ष्यं साधना इति अस्माभिः चर्चितं तर्हि अत्र सृष्टिचक्रमिति तु वयं जानीमः एव सृष्टिचक्रे सञ्चरधारायां स्थूल सूक्ष्मात् स्थूलपर्यन्तं गमनं तत्र तिष्ठिचक्रे स्थूलात् सूक्ष्मपर्यन्तं गमनं सूक्ष्मात् स्थूलपर्यन्तं गमनं सञ्चरधारायां तर्हि भूममनसः निर्माणं तदनन्तरं पञ्चभूतानां निर्माणं प्रकृतेः प्रभाववशात् तदनन्तरं तत्र षड्वादनात् द्वादशवादनपर्यन्तं प्रतिसञ्चर्धारायां पुनः स्थूलात् सूक्ष्मपर्यन्तं गमनं तर्हि इदानीं दशवादने मनुष्याणाम् आविर्भावः जातः मनुष्या मनुष्याः तु दश इन्द्रियैः स्थूलजगता तेषां सम्पर्कः भवति तेषां कार्याणि अपि इन्द्रियैः इन्द्रियैः इन्द्रियाणां तेषां कार्याणि अपि भवन्ति तर्हि इदानीं प्रकृतिबन्धनात् मुक्तिः कथं शक्यते यः यः अनु यद् अनुचैतन्यं तस्य प्रकृतिबन्धनात् मुक्तिः कथं शक्यते इति चेत् साधनाद्वारा एव शक्यते प्रथमतया साधना साधनायां साधनां चित्ते वयं कुर्मः चित्तं निवृत्तं भवति अहं तत्वे पुनः साधनाम् अहं तत्वे कुर्मः अहं तत्वं निवृत्तं भवति महत्तत्त्वे अततो गत्वा महत्तत्वं निवृत्तं भवति अनुचैतन्ये अनन्तरम् अनुचैतन्यम् अनुचैतन्यस्य ऐक्यं भवति परमात्मनि इति एवं रीत्या तत्र प्रक्रिया प्रवर्तते साधनायां तर्हि अत्र अस्माभिः एतदपि चर्चितं यत् मनः प्रकृतेः वशे भवति अतः प्रकृतेः वशात् मुक्तिः सुलभा नास्ति तर्हि अत्र एका एव प्रकृतिः अणुप्रकृतिः इति नास्ति एका एव प्रकृतिः भूमाप्रकृतिः तया एव अणुचैतन्यमपि बद्धं वर्तते अनुचैतन्यमित्युक्ते जीवः जीवः तया प्रकृत्या एव जीवः बद्धः वर्तते तर्हि तया सह एव अस्माभिः युद्धः करणीयः मुक्त्यर्थं तर्हि प्रकृतिः एका एव प्रकृतिः एका अद्भुता शक्तिः पुरुषः प्रकृतिः सर्वदा ते तयोः अविनाभावसम्बन्धः एकाकी एव पुरुषः वर्तते इति नास्ति कुत्रापि सर्वत्र प्रकृतिः वर्तते निर्गुणावस्थायां प्रकृतिः अस्ति परन्तु सुषुद्धावस्थायां वस्था प्रकृ निर्गुणावस्थायामपि प्रकृतिः वर्तते परन्तु सा तु परमावस्थायां भवति अतः तत्र सृष्टिः न जायते तत्रापि प्रकृतिः वर्तते प्रकृतिः नास्ति इति नास्ति तत्रापि तस्याः कार्याणि भवन्ति तत्रापि तस्याः गुणाः भवन्ति इत्युक्ते सुषुप्त अवस्थायाम् अस्ति नास्ति तत्रापि प्रकृतिः वर्तते तस्याः कार्याणि भवन्ति परन्तु तस्याः कार्याणि तस्याः गुणाः पुरुषं गुणान्वितं गुणान्वितं कर्तुं न शक्नोति तस्य बलहीनता वर्तते परन्तु सगुणावस्थायां पुरुषः अनुमतिं ददाति अतः प्रकृतिः प्रकृतेः ये गुणाः सन्ति तेषां प्रभावः पुरुषस्य उपरि भवति सृष्टिः जायते तर्हि प्रकृतिः एका एव गुणब्रह्मणि यदा सृष्टिः जायते तर्हि सा अनन्ता प्रकृतिः एव जीवात्मानमपि गुणान्वितं करोति तर्हि अस्माभिः तया सह एव युद्धः करणीयः अतः साधना सुलभा नास्ति यतोहि प्रकृतिः अद्वितीया शक्तिः अस्ति तर्हि इदानीं ततः अग्रे अस्माभिः अग्रे गन्तव्यम् हा अत्र किं सुचित्राभ्नि पठति वा मनुष्येषु चैतन्येन पुरुषेण एव साधना अन्तर्ज्ञानात्मकाभ्यास अन्तर्ज्ञानात्मक अभ्यासः कर्तव्या इति पूर्वम् उक्तमासीत् अतः प्रारम्भिकसाधना अन्तर्ज्ञानात्मकमभ्यासः रूपान्तरीतेन चैतन्येन अर्थता चेतना कर्तव्या भवति अर्थात् चित्तेन कर्तव्या भवति चित्तेन साधना क्रियते चेत् चैतन्यस्य प्रक्षेपणम् अहं तत्वे निवर्तते अनेन केवलम् अहं तत्त्व अहं तत्त्वं तत्त। तत्त। तत्त। च अवशिष्यते अतः अग्रिमसत्ता साधनानिर्वह निर् साधननिर्वहणार्थं अस्ति अहं तत्त्वं यत् रूपान्तरितं चैतन्यमस्ति प्रकृतिसिद्धान्तः महत्तत्वसृजते इति जानीमः तादृशस्य प्रकृतिसिद्धान्तस्य गुणात्मकप्रभावात् अहं तत्त्वं स्वं मोक्तुं महत्तत्वविलीनं भवति एवं महत्तत्वं वा अहम् इति शुद्धभावना एव अवशिष्यते एषा सविकल्पसमाधि अवस्था वर्तते यत्र केवलं महत्तत्वं वा शुद्धम् अहम् इति भावना या ब्रह्माण्डीयम् अहम् इति भावनायाः अभिन्ना अवशिष्यते तदनन्तरं महत्तत्त्वं साधनाम् आचरिति महत्तत्त्वं जीवात्मनि पूर्णतया विलीयते तत्पश्चात् प्रकृतिप्रभावेन आरोपितगुणेभ्यः चैतन्यं विमुक्तं भवति तत् चैतन्यं प्रकृतिबन्धनात् मुक्तिं प्राप्नोति सा स्थितिः निर्विकल्पसमाधिः इति उच्यते एवं मनुष्यैः यः साधनाभ्यासः कर्तव्यः सः पित्तात् आरभते अहं तत्त्वेन सः साधनाभ्यासः अनुसरणीयः अन्ते च महत्त्वेन अनुसरणीयः भवति तस्मात् चैतन्यं पूर्णतया मुक्तिं प्राप्नोति प्रकृतेः गुणप्रभावात् अत्र कीदृश साधनां कृत्वा अस्माकं मुक्तिः भवति प्रकृतिप्रभावात् तस्मिन् विषये चर्चितमस्ति यद्वयं जानीमः यः वर्तते तत्र वस्तुतः भगिनि भगिनि इदं परिच्छेदं तत्र पूर्वमपि पठितमासीत् केवलम् एवमेव प्रदर्शितम् तर्हि इदानीं ततः अग्रे अग्रिमपरिच्छेदमपि एकवारं पठित्वा तदनन्तरं तदा तदा अग्रे वयं गच्छामः प्रकृतेः प्रकृते गुणात्मकप्रभावात् मनसः मुक्तिः सुकरा नास्ति मनुष्याणां जीवात्मा अस्ति अतः अणुप्रकृतिः एव तं न्यूनति वा न तथा निर्गुणब्रह्मणि चैतन्यं प्रकृतिया न प्रभावितं यतः तत्र प्रकृतिः दुर्बल दुर्बलतरप्रतिरूपा अस्ति अनन्तप्रकृतिः अनन्तचेतनां प्रभावयितुं न समर्था इति कारणतः अणुप्रकृतिः जीवात्मनमपि प्रभावयितुं न शक्नोति सगुणब्रह्मावस्थायाम् अणुप्रकृतिः एव जीवात्मनं गुणयति इति कल्पना शुद्धा स्यात् यदि एवं नास्ति तर्हि का प्रकृतिः चैतन्यं गुणान्वितं करोति यतः प्रकृतेः गुणान्वयं विना सगुणब्रह्मा एव अस्मात् एवं कल्पनीयं स्यात् यत् प्रकृतेः अणुद्वयम् एकं जीवात्मनं गुणात्मितं करोति इति यतः एकाकिनी अणुप्रकृतिः जीवात्मना दुर्बलप्रतिरूपा अस्ति दुर्बलतरप्रतिरूपा अस्ति अनेन द्वाभ्याम् अनन्तप्रकृतिभ्याम् अनन्तं भूमाचैतन्यं गुणान्वयं प्राप्नोति इत्यपि सम्भावना स्यात् एतत् तर्कहीनं तथा च न भवितुं शक्नोति प्रकृतिः अद्वितीयशक्तिः अस्ति तस्याः कदापि अणुसु अथवा भागेषु विभागः न शक्यते अतः केवलम् अनन्तप्रकृतिः एव प्रत्येकं जीवात्मनं प्रभावयितुं शक्नोति यदि अनन्तप्रकृतिः स्वस्य अनन्तगुणप्रभावेण प्रत्येकं जीवात्मरम् गुणान्वितं करोति तर्हि जीवात्मनं मुक्त्यर्थम् अनन्तप्रकृतेः विरुद्धे युद्धं कृत्वा तस्याः पराजयः कर्तव्यः च अतः साधना सुलभकार्यं नास्ति अत्र कोऽपि प्रश्नः अस्ति वा परिच्छेदत्वे यत् पूर्वमपि पठितमासीत् प्रश्नाः सन्ति वा अव अवगमनमस्ति वा प्रथमपरिच्छेदं तु अवगमनम् अस्ति तत्र प्रथमं चित्ततः अहं तत्त्वं प्रति अहं तत्त्वतः महत्तत्वम् अनन्तरं महत्तत्वं यदा विलीनः भवति आत्मनि hmm. जीवात्मनि परन्तु अत्र यत् दत्तमस्ति प्रकृतिः hmm. एका एव तस्याः hmm. किमपि अणुप्रकृतिः वा भूमप्रकृतिः तादृशं सत्ता नास्ति एका एव प्रकृतिः तत्र जीवात्मनि सा प्रकृतिः एव जीवात्मनमपि गुणान्वितं करोति सा प्रकृतिः एव निर्गुणब्रह्म सगुणब्रह्मस्य अपि सगुणब्रह्ममपि गुणान्वितं करोति अतः तस्याः किमपि रूपद्वयम् इति नास्ति इति मम चिन्तनम् एका एव शक्ति तत्र विभागः नास्ति सत्यम् इत्युक्ते तत्र एतादृशदर्शनशास्त्राणि सन्ति अत्र भारतदेशे यत्र अणुप्रकृतिः इत्यपि तत्र कश्चन विषयः आनीयते परन्तु वास्तविकतया अणुप्रकृतिः इति नास्ति अणुप्रकृतिः इति नास्ति इदानीं तत्र निर्गुणावस्थायां प्रकृतिः अस्ति परन्तु तया किमपि कर्तुं न शक्यते पुरुषं गुणान्वितं कर्तुं न शक्यते सगुणावस्थायां पुरुषं गुणान्वितं करोति प्रकृतिः तर्हि अणुचैतन्यम् इति वयं पश्यामः चेत् तर्हि अनुचैतन्यमिति इति तु निर्गुणपुरुषस्य एव अंशः अस्ति खलु अणुचैतन्यम् अतः अत्र प्रकृतिः कथं अनुचैतन्यं प्रभावितुं शक्नोति निर्गुणावस्थायां न शक्नोति इति चेत् अनुचैतन्यम् अत्र जीवे जीवे अपि अनुचैतन्यं तत्र प्रकृतिः प्रभाव प्रकृतेः प्रभावः न नभ, न भवेत् खलु इयं hmm. तत्र एकः प्रश्नः अस्ति hmm. यदा निर्गुणब्रह्म अस्ति अनन्तरं सगुणब्रह्मणः hmm. अनन्तरम् एव अणुचैतन्यं वा कि अनन्तरं किमर्थम् अनन्तरमेव इति अनन्तरम् अनन्तरं जीवात्मनस्य आविर्भूतः भवति वा भूमाचैतन्य शगुणब्रह्मणि भूमाचैतन्यसमानं खलु शगुणब्रह्मणि न अत्र सगुणब्रह्म निर्गुण ब्रह्म इति एकः एव तस्य अवस्थाद्वयं सगुणब्रह्म निर्गुणब्रह्म इति सगुणब्रह्मणि सृष्टिः तत्र परमपुरुषस्य चित्ते सृष्टिः जायते सृष्टिः तु कल्पना वर्तते सृष्टिः तु केवलम् एका कल्पना वर्तते सृष्टिः जायते तत्र सृष्ट्यां तत्र सृष्टिचक्रे दृष्टं यत् जीवानाम् आविर्भावः षड् तर्हि जीवेषु मनः अपि वर्तते तत्र पुरुषः अपि अस्ति प्रकृतिः अपि अस्ति तर्हि पुरुषस्य प्रतिबिम्बः मनसा भवति पुरुषस्य प्रतिबिम्बः मनसा भवति तदेव वयं जीवात्मा इति वदामः अतः षड्वादने एव जीवात्मनस्य जीवात्मनः उत्पत्तिः हा षड्वादनस्य अनन्तरं षड्वादनस्य अनन्तरम् परन्तु भूमनः यदस्ति तत्तु त्रिवादने खलु हा भूमामनः क्रमेण तत्र मनसः आविर्भावः भूममनसः आविर्भावः भवति इदानीं षड्वादने केवलं मनः प्रकटि मनसः प्रकटीकरणं भवति अणुमनसः प्रकटीकरणं भवति पूर्वमेव निर्माणं जातं यदा भूमनसः निर्माणं अनुमनः तु भूममनसः अंशः अस्ति अस्तु तर्हि त्रिवादने एव मनसः निर्माणं जातं भूममनसः निर्माणं जातं तादृश् डिविज़न् तत्र क्षितितत्वे uh, तादृशसामर्थ्यं वर्तते यत्र प्रकृतेः गुणप्रभावात् तत्र विभजनं भवति जीवानाम् आविर्भावः भवति तादृशजीवे मनः अनुमनः अपि सः मनः तु तद् तु भुवमनसः अंशः एव ती यदा प्रतिसञ्चारं भवति तत्र अणुमनः पुनः भूममनशी संलग्ना भवति वा लीना भवति वा प्रतिसञ्चारधारायां एकादशवादनं तत्र अणुमनसः तु भूमामनसः अंशः अस्ति खलु ततः तत्र एव तस्य लीन विलीयते वा तत्र साधनाद्वारा यदा साधनां कुर्मः तदर्थं तत्र दशवादनात यदा यदा कोऽपि मनुष्यः सामान्यजीवनं जीवति तस्य तु पुनर्जन्म भवति अतः मनः अनुमनः सर्वदा भवति एव तर्हि दशवादनात् आदौ भागे गच्छति पुनः दशवादने आगच्छति एवं रीत्या तत्र उपरि आदौ गच्छति परन्तु यदा मनुष्यः साधनां करोति तदानीम् अग्रगतिः भवति साधनायां किं भवति इति चेत् सविकल्पसमाधिः निर्विकल्पसमाधिः इति अस्ति तर्हि सर्व् सविकल्पसमाध्यां तत्र अनुमनः भूममनसा सह ऐक्यं प्राप्नोति समाधि अवस्थायां खलु तत्तु सविकल्पसमाधिः hmm. निर्विकल्पसमाध्यां किं भवति इति चेत् मनः पुरुषे विलीनं भवति मनः मनसातीतः तत्र इदानीं मनः एव नास्ति द मैण्ड् डिसावज् इन् टु द पुरुष यथा लवणं समुद्रे विलीनं भवति तत् तथैव मनः विलीनं भवति पुरुषे मनः न मनः न तिष्ठति मनसः पृथक् अस्तित्वं नास्ति मनः नास्ति एव तदानीं जीवात्मा परमात्मनि विलीनं भवति तत्तु साधनायां परन्तु यदा मरणकाले यः साधकः अस्ति तस्य मरणकाले मुक्तिः अथवा मोक्षः भवति मुक्तिः यदा भवति तदानीम् अनुमनः भूममनसा सः ऐक्यं प्राप्नोति तस्य पुनर्जन्म न भवति यदि तस्य मोक्षः भवति तदानीं मनः पुरुषे विलीनं भवति जीवात्मा परमात्मना सह ऐक्यं प्राप्नोति पुनः पुनः जन्म न भवति मनः पुरुषे विलीनं भवति वा जीवात्मनः परमात्मने विलीनं भवति वा मनः द मैण्ड् कम्प्लीट्लि डिसोल् इट् डिसोल्स् इन् द पुरुष तस्य स्व पृथक्तया अस्तित्वं नास्ति तदानीं जीवात्मा परमात्मनि ऐक्यं प्राप्नोति तर्हि मनः अपि नास्ति जीवात्मा अपि नास्ति तर्हि तेषां सर्वेषाम् ऐक्यं भवति परमात्मनि अतः मनः नास्ति इति कृत्वा पुनः सृष्टिः न न जायते तस्मात् सृष्टेः सामग्री अपि न भवति ता तादृशमनः मनः सविसल्पश्रमाध्यायमपि तत्र मनस् विलीनं भवति खलु तत्तु समाधि अवस्थायां यावत्पर्यन्तं समाधिः अस्ति तावत्पर्यन्तं मनः विलीनं भवति यदा समाधि अवस्थातः बहिः आगच्छामः तदानीं पुनः मनः आयाति समाधिः इस् नाट् अपनण्ट् समाधि अवस्थातः यदा बहिः आगच्छामः तदानीम् अस्माकं कार्यं कुर्मः खलु तदानीं यदा कार्यं कुर्मः तदानीं मनः अस्ति एव hmm. विना कार्यं कर्तुं न शक्नुमः आम् अतः समा समाधि अवस्थातः बहिः आगच्छामः चेत् तदानीं तु मनः वर्तते समाधि अवस्थायां स्वविकल्पसमाधौ मनः विलीनं भवति भुवमनसाह तत्तु तात्कालिकः अस्ति न तु नाट् पर्मनेण्ट् निर्विकल्पसमाध्यामपि तदेव स्थितिः खलु निर्विकल्पसमाध्यां तदेव स्थितिः इति नास्ति अनुमनः पुरुषेण अनुमनस् मनसः अस्तित्वं न भवति पुरुषेन ऐक्यं प्राप्नोति समाधिव्यवस्थायां जीवात्मा परमात्मनि विलीनं भवति समाधिव्यवस्थायाम् एतादृशं वक्तुं शक्नुमः वा सविकल्पसमाध्यां मनसः तु तत्र स्वतन्त्रस्थितिः न वर्तते मनसः तु सर्वमनसि भूमा मनसि तत्र किं वदामः सस्पेन्शन् सस्पेन्शन् वदामः चेत् परन्तु निर्विकल्पसमाध्यां तु सःत्वमेव नास्ति मनसः अस्तित्वं नास्ति आत्मानुभूतिः अस्ति परन्तु तादृश आत्मानुभूतिः सविकल्पसमाधेः नास्ति एवं वा निर्विकल्पवि आत्मानुभूतिः अस्ति सविकल्पसमाध्याम् आत्मानुभूतिः नास्ति आत्मानुभूति इत्युक्ते किम् uh, परमात्मसाक्षात्कारः आम् परमात्मनः साक्षात्कारः स्वविकल्पसमाध्यामपि भवति तत्र केवलं भेदः कः इति चेत् सविकल्पसमाध्याम् अथवा स्वविकल्पसमाधौ तत्र मनः सामग्री भवति सृष्टेः सामग्री भवति अस्माकम् अनुमनः भूममनसः प्राप्नोति Dari Poonaha, it just goes into the Samagri of Srishti and then new Srishti comes from that. That, that, uh, that unit mind is part of the Bhuma mind, right? So it just goes and merges into the Bhuma mind and then it becomes the Samagri for the Srishti, future Srishti. From that it becomes uh, Akasha, Vayu and all, all of that and yeah, then again... Yeah, but since it is before uh, death, so it is in the Samaj before death, so it just uh, goes... Yeah, temporary phase comes back. Yeah, exactly, exactly. In Samadhi, it just comes back. And Nirvikalpa Samadhi, it, uh, it must come back since it is still Samadhi. Mm. Parantu, Tatra, there is something else also happens. Like in Savikalpa Samadhi, mind only feels that uh, uh, the mind remains suspended. But in Nirvikalpa Samadhi, the mind dissolves, is it? Yeah, in Nirvikalpa Samadhi, the mind is... Again, they come back. Because both, both of, of them, them come, come back. Adhi, yeah. Both of them come okay. back. In both places, Jeevatma merges with Paramatma. Okay. Okay. Hmm. Astu. Astu. Agregacha Mahava. Bhagini, so, Bhavati, Uptavati, Yatha... भूमामनस्य विलीनं भवति तदानीं पुनः आगच्छति संसारे यथा वायुचक्र इति सञ्चरधारा पुनः भवति किन्तु संस्कारः तु संस्कार सर्वे तो संस्कार नूतना भवन्ति नूतन नूतन नूतनजीवः हा नूतनः नूतन ता, तादृश इदानीं जीवात्मना सह यद् मनः अटेच्ड् आसीत् तद्गतं तद्गतं तस्य तादृशजीवस्य पुनर्जन्म नास्ति द सेम् डौ वित् इन् दू यूसिङ्ग् द सेम् डौ बिफोर् यु मेड् रोटि नौ युर् मेकिङ्ग् संथिङ्ग् एल् ओके okay, अग्रे गच्छामः भगिनी सरला भगिनी भवती पठतु अस्तु क्षम्यताम् अत्र न दृश्यते न दृश्यते Okay. इदानीमस्ति समष्टिबलम् अस्ति यत् नित्यचञ्चलम् अतः सृष्टिनित्यं परिवर्तनशीला अस्ति अस्मिन् सृष्टिचक्रे यत् किमपि प्रकटितं तत् सर्वं रूपान्तरितरूपान्तरितम् भूमा चैतन्यमस्ति ूमा चैतन्यम अस्त अतः सृष्टिचक्रे पर्तनामन अ पिवर्त अर्था भूम अभी चंचलन सृष्टे प्रवाहे पिवर्तन जायते पर प्रवाह पिवर्तन मंदम क्रमिक यहाँ प्रकृति अति स्वीक परिवर्तनम् आनेतुम्ैतन्यायाः अनन्तत्वात् एव परिवर्तनानि क्रमिकाणि भवन्ति न तु अत्यन्तं शीघ्राणि नित्यं परिवर्तनशीला प्रकृतिः अपि सम्पूर्णस्य अनन्तस्य भूमा मनसः परिभ्राह्मणम् आने परूम तदा आनयती तदात अनेकृति अणुमनसी अघाध चंचलता आनयती अंत प्रकृति पूर्ण प्रभाव अणु अत्य क्षिप्तः परिवर्तनशीलः च भवति मनस चपलतायाः नित्यं परिवर्तनशीलस्य च स्वभावस्य वर्णनम् अनावश्यकम् यतः सर्वे सम्यक् अवगच्छन्ति मनुष्यस्य मनसि एतादृशगुणः प्रकृतेः एकमात्रं दानम् अस्ति सः प्रकृतिः यः कमपि पदार्थं सृजति तस्मै स्वस्याः नित्यचञ्चलतायाः गुण ददाति अस्तु अस्तु स प्रकृतिः यत् अस्ति या पुरुषम् प्रभाव पुरुषस्य यदि सन्मिग्नं भवति तदा प्रकृतेः प्रभावेन पुरुषम् अपि गुणावित् भवति तत् वयम् उक्तवन्तः तत्र भूमा सगुण ब्रह्मी तो प्रकृते य प्रभाव तत बहन बहु शनै शन शन शीघ्र शीघ्र शीघ्रेण बहुति सृष्टि निर्माण यदुण ब्रणे ब्रह्मण सृष्टि निर्माण कौती तत् भवति कारण भवति सृष्टिः निर्माणं भवति कारणक प्रकृतेः परिवर्तनं भवति प्रकृतेः परि परिवर्तनं तस्य गुणान् अनुसारणं भवति तत् परिवर्तनम अपि यत् भवति तत्र तत् अपि शनैः भवति तस्य गति शीघ्रा शीघ्रा नास्ति इति अस्ति आ, तो परिवर्तनं भूमा मनसि पर सृष्टिनिर्माणं भवति भूमा चैतन्य चैसन, कारणे तस्य भूमा म, वयं जानीमः प्रथमं भू महत् तत्त्वम् आगच्छति तदनन्तरम् अहं तत्त्वम् आगच्छति इति भूमामनस्य कल्पना अस्ति यत् सृष्टिनिर्माणं करोति भूमामनस्य चित्त या कल्पना आकारः भवति तत् सृष्टेः भवति किन्तु सर्वं बहु यत् परिवर्तनं शनैः शनैः आगच्छति इति दत्तमस्ति कोऽपि परिवर्तनं वयं यदि सृष्टेः पश्यामः तत् एक झटिति नास्ति इति दत्तमस्ति अत्र क्रमेण भवति तत् क्रमः अपि तस्य गतिः अपि न्यूना अस्ति इति भाति प्रकृतेः परिवर्तनं न भवति किन्तु आ, आ, बहु मन्दं गतिः अस्ति अतः इति न सम्भव मनुष्य अनुभवनम् अजीव अनुभवनं करोति ते प्रकृतेः परिवर्तनम् अभवत् किन्तु इति भवति इति अस्ति अणु अणु प्रकृतेः अपि तस्य भावः आगच्छति यदा भूमा समस्त प्रकृतेः यदि परिवर्तनं भवति तस्य प्रभावः अनुच अनुप्रकृतेः अपि भवति इति सङ्घर्षं प्रचलन् अस्ति एवम् इति अस्ति अत्र प्रकृतेः गति परिवर्तनं केवलं Uh, आमामाम् आं आम, आम. हा इत्युक्ते तदेव तत्र अत्र परिवर्तनस्य गतिः मन् गतिः मन् मन्दा वर्तते अनन्तरं सर्वं परिवर्तते सर्व सर्वस्य परिवर्तनशीलता वर्तते mm -hmm. अस्मिन् जगति यत्किमपि अस्ति सर्वेषाम् एतादृशगुणः वर्तते यत्र परिवर्तनं जायते परन्तु परिवर्तनं क्रमेण भवति झटिति न भवति एव mm -hmm. गुणः अस्ति प्रकृतेः यथा वयम् इदानीं वदामः ओ प्रकृतेः इदानीं सर्वे ऋतवः अपि mm -hmm. सम समानं नास्ति अधिकं ग्रीष्मं भवति वा mm -hmm. ग्रीन् लेण्ड् इस् नाट् ग्रीन् शनैः शनैः इति अभवत् कारणे किं मनुष्येन इति सर्ववनानि इति तस्य भङ्गं कृतवान् वृक्षान् वृक्षान् छिदित्वा छिन्न छिन्न छिद् छिन्नं कृतवान् इति तस्य प्रभावम् वयं पश्यामः इदानीम् आमाम् इत्युक्ते इदानीं मम पुरतः एकः पाषाणखण्डः अस्ति परन्तु तादृशपाषाणखण्डः सर्वदा पाषाणखण्डरूपेण एव भवति इति नास्ति खलु तत्रापि परिवर्तनं जायते क्रमेण क्षणे शनैः शनैः परिवर्तनं जायते सर्वत्र परिवर्तनं जायते यद् यद्यपि यत्किमपि मम पुरतः अस्ति तद् एवमेव अस्ति इति भाति परन्तु तत्रापि परिवर्तनं जायते अत्र अस्मिन् जगति किमपि नास्ति यत्र एतादृशपरिवर्तन परिवर्तनत्वं नास्ति mm -hmm. सर्वत्र अत्र सृष्टिचक्रे अपि अस्माभिः दृश्यते आकाशतत्वात् वायुतत्वं वायुतत्वात् तत्वा जलतत्वं जलतत्वात् अग्नितत्त्वम् इत्येवं रीत्या तत्र क्रमः वर्तते तर्हि अस्मिन् जगति यत्किमपि वयं पश्यामः सर्वत्र प्रकृतेः चञ्चलता दृश्यते सर्वं सर्वमत्र गच्छत्येव अस्ति पिपीलिका पाषाणखण्डः mm. वा भवतु यत्किमपि भवतु कीटाः वा भवतु सर्वत्र गतिः mm. वर्तते एव यदि वयं जानीमः वा न जानीमः वा तत्र सर्वत्र गतिः अस्ति सर्वत्र प्रकृतेः चञ्चलता अस्ति अतः मनसि अपि एतादृशगुणः आगतः अस्ति मनः अपि सर्वदा चञ्चलमेव वर्तते मनसि अपि प्रकृतेः गुणः अस्ति मनसि सर्वदा चञ्चलता वर्तते अतः मनः एकत्र एव अस्ति इति नास्ति कदाचित् उपरि गच्छति कदाचित् अधोभागे गच्छति एकस्मिन् दिने एव पश्यामः खलु तर्हि यः पुरुषः योगनस्य जीवने अस्ति साधनां करोति तस्य मनः अस्थिरं भवति उपरि अधोभागे न गच्छति यत्किमपि भवतु अस्माकं सविरे परन्तु मनः एवमेव तिष्ठति कदाचिदपि अधोभागे न गच्छति इति अत्र अस्मिन् परिच्छेदे प्रकृतेः चञ्चलतायाः विषये उक्तम् अत्र सिष्टिचक्रे अपि एवमेव एकस्मिन् दिने सर्वम् एतादृशं सञ्जातम् इति नास्ति तत्रापि काचित् गतिः वर्तते काचित् कश्च कश्चन क्रमः वर्तते इत्येव विषयः अस्ति अस्तु सुचित्राभगिनी भवती एकं स्वीकरोतुः नित्यचञ्चलतायाः कारणेन तस्याः सृष्टिः अर्थात् अणुमनः अपि स्वस्य सम्पूर्णे अस्तित्वे विक्षिप्तं भवति कदाचित् वा केषुचित् स्थानेषु अधिकं व्याकुलं भवति केषुचित् तु न्यूनविक्षिप्तं भवति चञ्चलता प्रकृत्याः आरोपितगुणः इति कारणतः प्रकृतेः प्रभावेण विकल्पयति यत्र प्रकृतेः प्रभावः न्यूनः भवति तत्र मनः न्यूनं व्याकुलम् अथवा विक्षिप्तं भवति प्रकृतेः प्रभावः महत्त्वे न्यूनतं चित्ते च अधिकतमः अतः महत्त्वं चित्तस्य अपेक्षया न्यूनचञ्चलं भवति साधना अथवा साधनाभ्यासः जीवात्मने प्रकृतेः प्रभावं न्यूनीकरोति अपि च साधना साधनाया साधनया मनसः चञ्चलता अपि न्यूनी भवति प्रकृतिः एव मनसि विकारं प्रदातुम् उत्तरदायिनी भवति यदा तस्याः प्रभावः क्षीणः तदा मनसः अभिभा अभिवेगः अपि न्यूनः भवति अतः मनसः अभिवेगस्य स्थिरीकरणं न शक्यते यावत् जीवात्मा प्रकृतिप्रभावात् मुक्तः न भवति अत्र दत्तमस्ति यदा प्रकृतेः प्रभावादेव अस्माकं मनसि एतादृशचञ्चलता वर्तते प्रकृतेः नित्यचञ्चलताकारणेन तस्याः सृष्टिः सृष्टिः अपि प्रकृतेः एतादृशनित्यचञ्चलतायाः कारणेन एव अस्ति अणुमनः अपि सृष्यसम्पूर्ण अस्तित्वे भवति ये सम्पूर्ण अस्तित्वे विक्षिप्तं भवति इत्युक्ते किम् mm. किं भगिनि कः प्रश्नः स्वस्य सम्पून्ने अस्तित्वे विक्षिप्तं भवति अणुमनः कुत्र लिखितं प्रथमवाक्यम् अर्थात् अणुमनः अपि स्वस्य सम्पूर्णे अस्तित्वे विक्षिप्तं भवति प्रकृतेः नित्यसंस्कृतकारणेन तस्याः सृष्टिः अर्थात् अनुमनः हा इत्युक्ते तत्र प्रकृत्यां यादृशी संचलता दृश्यते तादृशचञ्चलता तु अनुमनसि अपि दृश्यते अतः एव सर्वदा इट् इस् रेस्लेस् अण्ड् डिस्टर्ब्ड् ओके ओके कदाचित् तदनुमनः अधिकं व्याकुलं भवति कदाचित् वा न्यूनं परन्तु तत्र एतादृशचञ्चलता कुतः आगतः इति पृष्ठे प्रकृत्याः एतदस्ति आरोपितगुणः प्रभावेन एव अतः मनसि यद् तत्र पश्यामः चेत् प्रकृतेः प्रभावः कदाचित् न्यूनमपि भवति कस्मिन् स्तरे च न्यूनं भवति कस्मिन् स्तरे च अधिकतमं भवति न्यूनतमः भवति प्रायणमहत्तत्वे तत्र चित्तस्य अपेक्षया न्यूनतमं भवति प्रकृतेः प्रभावात् अतः चञ्चलतायाः आधिक्यं चित्ते एव अधिकं भवति चञ्चलता आधिक्येन भवति तत् चञ्चलतायाः न्यूनीकरणं कथं कर्तुं शक्यते इत्युक्ते साधना कृत्वा तत्र साधनया एव मनसि चञ्चलता न्यूनीकर्तुं शक्यते किमर्थम् इत्युक्ते प्रकृतिः एव कारणं मनसि एतादृशचञ्चलता भवितुम् अतः यदा प्रकृत्याः प्रभावात् अस्माकं मनसमुक्तिः भवति तदा एव तत्र स्थायि स्थिरीकरणं भवति स्थिरत्वं भवति परन्तु एतदपि प्रायेण क्रमेण एव भवति न झटिति किमपि न भवति थमं तु प्रभावः क्षीणः क्षीणः भूत्वा कदाचित् विलीनः भवति तदेव mm. मम चिन्तनं सम्यक् भगिनि समीचीनम् इत्युक्ते यदा द्वादशवादनात् षड्वादनपर्यन्तं यदा पुरुषः प्रकृतेः वन्दने आयाति तदानीं तदपि क्रमेण एव भवति क्रमेण भवति तत्र काचित् गतिः अपि वर्तते षड्वादने सम्पूर्णतया बन्धने भवति तदनन्तरं षड्वादनात् पुनः द्वादशवादनपर्यन्तं प्रकृतिः नित्यनिवृत्ता भवति क्रमेण पुरुषः प्रकृतिबन्धनात् मुक्तः भवति खलु तर्हि यदा जीवः मुक्तिं प्राप्तुम् इच्छति तदानीं तादृशप्रकृतेः बन्धनात् मुक्तिं प्राप्तुम् इच्छति दशवादने यद्यपि प्रकृतिः नित्यनिवृत्ता अस्ति तथापि दशवादने इतोपि जीवः बद्धः एव अस्ति प्रकृतिबन्धने बद्धः अस्ति तर्हि बन्धनात् मुक्तिं प्राप्तुं जीवः प्रयासं करोति यदा तस्य अन्तश्चक्षुः उद्घाटितं भवति तस्मिन् जीवे अनन्तेषणा वर्तते इति यदा जानाति तदानीं सः प्रयासं करोति तदानीम् अग्रगतिः भवति यदि एतादृशं नास्ति तदानीं मनुष्यः पशुजीवने पशुजीवनं व्यवहरति तदानीं मनसः अधोगमनम् अधोगतिः भवति यतोहि सः तु प्रकृतिबन्धने प्रकृतेः वशे वर्तते यतोहि सः साधनं न करोति खलु तर्हि तस्य मनसि तस्य मनः स्थूलवस्तुना मनः आवृत्तं वर्तते खलु अतः सः परमात्मनः विषये चिन्तनं न करोति परन्तु यः साधकः अस्ति यः यस्य अन्तश्चक्षुः उद्घाटितं वर्तते सः तु अनन्तपुरुषस्य विषये चिन्तनं करोति साधनां करोति तदर्थम् एका पद्धति वर्तते तया पद्धत्या यदा वयं साधनां कुर्मः तदानीं मनसि या चञ्चलता वर्तते सा न्यूना भवति तदानीं मनः शुद्धं प्रतिदिनं साधनां कुर्मः मनः शुद्धं शुद्धं शुद्धम् इतोपि शुद्धं भवति परमात्मानं प्रति आकर्षणं वर्धते तदानीम् अन्ततो गत्वा मुक्तिः अपि निश्चयेन भवति परन्तु अत्र विषयः कः इति चेत् प्रकृतिः सर्वदा परिवर्तते कदापि एकदा न भवति सर्वदा चञ्चला वर्तते तस्य क्रमिकगतिः वर्तते अस्माकं मनः अपि तथैव अस्ति प्रकृतेः यः स्वभावः स्वस्वभावः अस्माकं मनसि अपि वर्तते साधनायामपि आदौ चञ्चलता दृश्यते परन्तु यदा वयम् अभ्यासेन पुनः पुनः साधनां कुर्मः परमात्मनः विषये चिन्तनं कुर्मः तदानीं तत्र एतादृशी चञ्चलता न्यूना भवति इत्येव अत्र विषयः अस्ति अस्माकं समयः अतीतः अत्र स्थगनं कुर्मः कोऽपि प्रश्नः अस्ति वा न भगिनि स्पष्टमस्ति अस्तु तर्हि समीचीनं बहु समीचीनं धन्यवादा धन्यवादः नमस्कारः धन्यवादः धन्यवादः